मार्कण्डेयपुराणम् अध्यायं नैण्टि वन् देवीमाहात्म्यम् अध्यायम् इलेवन् ऋषिरुवाच देव्या हदे तत्र महासुरेन्द्रे सेन्द्रासुरा वह्निपुरोगमास्ताम् तुष्टु कायनीुरीशी वक्ज विशिताशा देवा ऊचु दपन्ना हरे प्रसीद प्रसीदमाद जगदिल से प्रसीदविश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य आधारभूता जगतस्त्वमेका महीस्वरूपेण यतस्थितासि अपां स्वरूपस्थितया त्वयै ददाप्यायदे कृष्णमलङ्घ्यवीर्ये त्वं वैष्णवीशक्तिरनन्दवीर्या विश्वस्य बीजं परमासी माया सम्मोहिदं देवि समस्तमे दत्त्वं वै प्रसन्ना भुवि मुगृहेदुः विद्या समस्तास्तव देवि भेदा स्त्रियः सकला जगत्सु त्वयैकया पूरिदमम्बयैदका ते स्तुदिस्तव्यपरा परोक्रिः सर्वभूता यदा देवी त्वं स्तुदा स्तुतये भवन्तु परमोक्तयः सर्वस्य बुद्धिरूपेण जनस्य हृदि स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु कलाकाष्टादि कलाकाष्ठादिरूपेण परिणामप्रदायिनि विश्वस्योपरदौ चक्रे नारायणि नमोऽस्तु ते सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बगे गौरिनारायणि नमोऽस्तु दे सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि गुणाश्रये गुणमये नारायणि दीनार्त ते शरणागतदीनार्तपरित्राणपरायणे र्वैर्ति हरे देवि नारायणि नमोस्तु दे। हंसयुक्त विमस्ते ब्रह्मणीधारिणि कौशाभ क्षरिगे दि नारायणि नमोस्तु त्रिशूलचंद्राइिधरे महवृषवाहिनी माहेश्वरीस्वरूपेण नारायणि नमोऽस्तुदे मयूरकुक्कुडवृदे महाशक्तिधरेमखे कौमारी संस्थाने नारायणि नमोऽस्तुदे शङ्खचक्र गदाशार्ङ्गगृहीतपरमायुधे प्रसीद प्रसीदवैष्णवीरूपे नारायणि नमोऽस्तुदे गृहीतोग्रमःचक्रे दंष्ट्रोद्धृतवसुन्धरे वराहरूपिणि शिवे नारायणि नमोऽस्तुदे नृसिंहरूपेणोऽग्रेण हन्तुं दैत्यान् कृतोद्यमे त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु किरीडिनि महावज्रे सहस्र सहस्रनयनोज्ज्वले वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते शिवदूधिस्वरूपेण हददैत्यमहाबले खोररूपे महारावे नारायणि नमोस्तु ते करालवदने शिरोमाला विभूषणे चामुण्डे मुण्डमधने नारायणे नमोस्तु ते लक्ष्मीलज्जे महाविद्ये श्रद्धे पुष्टे स्वधे ध्रुवे महारात्रे महामाये नारायणि नमोऽस्तु दे मेधे सरस्वतिवरे भूदिबाभ्रवितामसि नियदे त्वं प्रसीदेशे नारायणि नमोऽस्तु दे सर्वदः पाणिपादान्ते सर्वदोक्षिशिरोमुखे सर्वदश्रवणख्राणे नारायणि नमोऽस्तु ते सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते दे, भयेभ्यस्त्राहिनो देवि दुर्गे देवी, नमोऽस्तु दे ये दत्तेवदनं सौम्यं लोचनत्रयभूषितं पादुनः सर्वभीदिभ्यः कात्यायनि नमोऽस्तु ते ज्वालाकरालमत्युग्रमशेषा सुरशूदनं त्रिशूलं पादुनो भीदेर्भद्रकाली हिनश्चिदैत्यतेजांसि स्वनेनापूर्य या जगद सा पादुनो देवी पावेभ्यो नः सुदानिव असुरासृग्वसापङ्गचर्चितस्ते करोज्ज्वलः शुभाय खड्गो भवतु चण्डिके त्वां नदा वयम् <Sessantina> रोगानशेषा नपहंसितुष्ठा रुष्ठादुत्कामान् सकलानभीष्ठान् त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयदां प्रयान्ति एतत्कृतं यत्कथनं त्वयाद्यधर्मद्विषां देवि महासुराणाम् ने बहुधात्मूर्तिबिगेत प्रकोदि कन्या विद्यासु शास्त्रु विवेकदीपेद वाक्यु जनिया मम त्वगर्तेदि महान्धकारे विभ्रामयत्ये दधीव विश्वं रक्षांसि यत्रोग्रविशाश्च नागा यत्र रयो दस्युबलानि यत्र दावानलो यत्र तदाब्धिमध्ये तत्र परिपासि विश्वम् विश्वेश्वरि परिपासि विश्वं विश्वात्मिका धारयसि विश्वं विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः देवि नित्यं यथा सुरवधा दधुनैव सद्यः पापानि सर्वजगदां प्रशमं नयाशु उत्पादपाकजनितांश्च महोपसर्गान् प्रणतानां प्रसीदत्वं देवि विश्वार्थिहारिणी त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव श्रीदेव्युवाच वरदाकं सुरगणवरं यन्मनसेच्छद तं वृणुध्वं प्रयच्छामि जगदामुपकारकं देवा ऊचुः सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि एवमेव त्वया कार्यमस्मद्वैरिविनाशनं श्रीदेव्युवाच वैवस्वदेन्दरे प्राप्ते अष्टाविंशति मे युगे शुम्भो निशुम्भश्चैवन्या उत्पत् स्येदे महासुरौ नन्दगोपगृहे जादा यशोदा गर्भसंभवा। ततस्तौ न शयिष्यामि विन्ध्याचलनिवासिनी पुनरप्यधिरौद्रेण रूपेण पृथिवीतले अवतीर्यहनिष्यामि वैप्रचित्तां स्तुदानवान् भक्षयन्त्याश्च तानुग्रान् वै प्रचित्तान् सुदानवान् रक्तादन्ता भविष्यन्ति दाडिमी कुसुमोपमाः ततो मां देवता स्वर्गे मर्त्यलोके च मानवाः स्तुवन्दो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् भूयश्च शतवार्षिक्यमनावृष्ट्यामनंभसि मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययो निजा तदश तेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् कीर्तयिष्यन्ति मनुजा तदोहमखिलोकमात्मेसैयामी सुरा शाकैरावृष्टे प्राणधारक शाकंभरीख्याति तदाम्यहं भुवि त्र विष्या दुर्गमाख्यम महासुर दुर्गा दीदि विख्या तम भविष्यति पुनश्चाहं यदा भीमं रूपकृत्वा हिमाचले रक्षांसि भक्षयिष्यामि पुनीनां त्राणकारणाद् तदा मां मुनयः सर्वे स्तोष्यन्त्या नम्रमूर्तयः भीमादेवीदि विख्यातं तन्मे नाम भविष्यति यदा अरुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति तदा कं भ्रामरं रूपं कृत्वा सङ्ख्येयषट्पदं त्रैलोक्यस्य हिदार्थाय वधिष्यामि महासुरं भ्रामरीदिजमां चोकास्तदा स्तोष्यन्ति सर्वतः युद्धं यदा यदा बाधा दानवोद्धा भविष्यति तदा तदावतीर्याहं करिष्याम्यरिसङ्क्षयम् इति श्रीमार्कण्डेयमहापुराणे सावर्णिके देवी देवीमाहात्म्ये देवै कृता नारायणोस्तुतिर्नामैकनवतितमोऽध्यायः ॐ